समा शिवस्वरूपे निर्भरा जनानां ग्रन्दना भवाग्न प्रभाते प्राजलि नरेन्द्र सैस्वी नरेन्द्र यौवने नरेन्द्रक्रीडने नरे प्रभाते प्राजलि विवेकानन्दते प्रभाते प्राञ्जलि हरिन्द्र चिष्ट कलाज्ञो गायने परिज्ञानैर्बुधो महषि यतेन्द्रोसेक् भवान् यन्नास्ति किं विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि दर्शिता विहसं धावने विनयिकाम पादुकां नितान्तोन्मतव समाना देहि मे न मोक्षा नन्दति प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि गुरुरङ्ख्युत्पली समात्मानं ददौ परीक्षानन्तरम् बहुप्रश्नै विषं विशुद्धये सेवनये भवासं कृपये विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि विवे सुगन्ध श्रीगुरु गुरु वायु खलु सतुर्यं त्वं च भो महोचैघोषकं गुरुसूर्यस्तु हि किला दशो भवान् विवेकानन्दति प्रभाते प्राञ्जलि विवेकानन्दति प्रभाते प्राञ्जलि स्वधर्मश्रेष्ठतां सगर्वं शंसतां जनानां द्रेष्ठतां सयैवाभाज्यहो स्वधर्मो वैदिको जनर्गो दर्शित विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि स्तुतिङ्गा स्फोटयन् सुदीप्ताग्निर्यथां तथैव त्वं यते विक्रेयामानुषिं परे ज्ञानप्रभाम् आचारी भारति विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि अहो आकर्षणं तवास्य शतुलं तवाहो पौरुषं विरागोमुग्धतां प्रगाढं प्रेम वेद विवेकानन्दते प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि विमोक्षं सात्मनं चतुर्योगादभि पृथग्वा सङ्गत हितं लोकस्य च तवाज्ञा साधये इति प्रीत्यानय प्रभाते प्राञ्जलि विवेकानन्दते प्रभाते प्राञ्जलि यते नो रुस्तव प्रणामं दाशति प्रफुल्लं षट्पदे प्रसूनं प्रावृतं तवार्थं कोकिलो मनोज्ञं कूजति विवेकानन्दति प्रभाते प्राञ्जलि विवेकानन्दति प्रभाते प्राञ्जलि उषकालिपदे नमस्लित्याशिषां लभेरन्धन्यताम् श्रालव समेता सम्मुखे ददिथा दर्शनं विवेकानन्दते प्रभाते प्राञ्जलिं हिमाद्रिराश्रमीं जयन्त्यां निर्मिताम् पृथग्वा सङ्गतं यते लोकस्य च तवोऽयं यठे स्वभक्त्या नर सशक्तिं पौरुषं विरागं चार्जति विवेकानन्दते प्रभाते प्रा विवेकानन्द प्रभाते प्राजलि हिमाद्रिराश्रमे जयन्त्यां निर्मित भुजङ्गस्मिणी तिवृत्ते नन्दते प्रभाते प्राञ्जली विवेक आनन्दते प्रभाते प्राञ्जली